श्रीसीतारामचन्द्राभ्यां नमः श्रीरामजयं चरितं रघुनाथस्य शतकोटिप्रविस्तरं येकैकमक्षरं पुंसा महापातकनाशनम् श्रीरामचन्द्रुनि चरित्रमु शतकोटि श्लोकमुनम् अनुलोनि प्रति अक्षरमू महामहापराशिनि सैतम् न मु रामायणमु नाम रामायणमु अनुपेतो संक्षिप्तमुगा गेयरूप गानम् दी। दीनि समस्त चित्त मानव ुटवराशि नशित्तशुद्धि कु मानवजन्म ओम श्री सीता भरत लक्ष्मणभरतशत्रुघ्नहनुमत्समेत श्रीरामचन्द्रपरब्रह्मणे नमः राम राम जय राजा राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गळ सीता राम शुद्धुद्ध ब्रह्म परात्पर राम कानात्मक परमेश्वर ब्रह्माद्यमरप्रार्थित राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गलसीता राम चण्डकिरणकुलमण् श्रीमद्धशरथनन्दनराम कौसल्या सुखवर्धन राम विश्वामित्रप्रियधनराम राम राम जय राज राम राम राम जय सीतारा भय हर मङ्गल दशरथ राम जय, जय श्रीमदहल्योद्धारक राम राम राम जय राजा राम राम राम जय सीता राम भयहर मंगल दशरथ राम जय जय मंगल सीता राम मुनि संस्पू राम सुरमुनिवरगणसंस्तुतराम नाविकधावितमृदुपद राम ना मिथिलापुरजन मोदक राम राम राम जय राज राम राम राम जय सीतारा भयहर मङ्गल दशरथ राम जय जय मङ्गल सीतराम विदेहमानसरञ्जक राम त्र्यम्बककार्मुकभञ्जकराम सीतार्पितवर मालिकराम कृतवैवाहि राम राम जय राजा राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय सीता राम भार्गवदर्पविनाशक राम श्रीमदयोध्यापालक राम अगणितगुणगणभूषित राम अवनीतनया कामितराम राम राम जय राज राम राम हय हर मङ्गल दशरथ राम जय जय तत्क्षालितनिजमृदुपद राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम हरद्वाजमुखानन्दकराम चित्रकूटाद्रिनिकेतन राम दशरथ सन्ततचिन्तितराम कैकेयीतनयार्थित राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम विरचित निज पितृकर्म कराम भरतार्पित निजपादुक राम दण्डकवनजनपावन राम दुष्टविराधविनाशन राम राम राम जय राज राम राम राम जय सीता राम भय हर मङ्गल दशरथ राम जय जय मङ्गल सीतराम शरभङ्गसुतीक्ष्णार्चितराम अगस्त्यानुग्रहवर्धितराम दृद्राधिपसंसेवितराम पञ्चवटीतटसुस्थित राम राम राम जय राज राम राम राम जय भय हर मङ्गल दशरथ राम जय जय मङ्गल सीतराम शूर्पणखार्तिविधाय कराम हर दूषणमुखसूदक राम सीता प्रियहरिणानुगराम मारीचार्तिकृदाशुगराम राम राम जय राज राम राम राम जय, राम जय सीतारा भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम विनष्ट सीतान्वेषकराम रुद्राधिपगतिदायक राम शबरीदत्तफलाशन राम कबन्धबाहु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 नत सुग्रीवाभीष्टतराम गर्वितवालिविमोचक राम वानरदूतप्रेषकराम राम राम जय राज राम राम राम जय, राम जय सीतारा भयहर मङ्गल दशरथ राम जय जय मङ्गल सीताराम हितकरलक्ष्मण संयुत राम कपिवर सन्तत संस्मृतराम तद्गतिविघ्नध्वंसकराम सीता प्राणाधारक राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गळ सीता राम दुष्टदशान दूषितराम शिष्टहनुमद्भूषित राम सीतोदितकावन का राम कृतचूडामणि दर्शन राम राम राम जय राज सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम कपिवरवचनाश्वासितराम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 विभीषणाभयदाय कराम पर्वतसेतुनिबन्धक राम कुम्भकर्णशिरश्छेदक राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीता राम अहिमहि रावण दारण राम संहृतदशमुख रावण राम विधि भव ख सुरसंस्तुतराम खस्खथित दशरथ वीक्षित राम राम राम राम राम राम जय, राम राम जय सीता जय जय सीता सीताराम सीता दर्शन मोदितराम अभिषिक्त विभीषणनुतराम पुष्पकयानारोहण राम भरद्वाजाभिनिषेवन राम राम राम जय राम जम राम राम जय सीता राम भय हर मङ्गल दशरथ राम जय जय मङ्गल सीता राम भरत प्राणप्रियकर राम साकेतपुरी भूषण राम सकलस्वीयसमानतराम रलसत्पीठस्थित राम राम राम जय राजा राम राम राम जय सीता सीताराम भयहर मङ्गल दशरथ राम जय जय मङ्गलसीतराम पट्टाभिषेकालङ्कृतराम पार्थिवकुलसम्मानितराम विभीषणार्पितरङ्गकराम कीशकुलानुग्राहक राम राम राम जय राज राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गल सीताराम सकल जीव संरक्षक राम समस्तलोपोद्धारक राम अगणितमुनिगणसंस्तुतराम विश्रुत राक्षसखण्डन राम राम राम जय राज राम राम राम जय सीता राम भयहर मंगल दशरथ राम जय जय मंगल सीता राम सीतालिङ्गननिर्वृत राम नीतिसुरक्षित जनपद राम विपिन त्याजितजनकजराम कारितलवणासुरवधराम राम राम जय राजराम राम राम जय सीता राम भयहरमङ्गलदशरधराम जय जय मङ्गलसीतराम स्वर्गतशम्भुकसंस्तुतराम स्वतनयकुशलवनन्दितराम अश्वमेधक्रतुदीक्षितराम कालावेदितसुरपद राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गलसीता राम अयोध्याजनमुक्तिधराम विधिमुखविबुधानन् राम तेजोमय निजरूप कराम संसृतिबन्ध विमोचक राम राम राम जय राज राम राम राम जय सीतारा भयहर मङ्गल दशरथ राम जय जय मङ्गल सीताराम धर्मस्थापन तत्परराम भगवति परायणमुक्तिधराम सर्वचराचरपालकराम सर्वभवामय वारक राम राम राम जय राज राम राम राम जय सीता राम भयहर मङ्गल दशरथ राम जय जय मङ्गलसीता राम वैकु लय संस्थित राम नित्यानन्दपदस्थित राम करुणानिधि भयहर मङ्गल दशरथ राम जय जय मङ्गलसीतराम मङ्गलकर जय मङ्गल राम सङ्गतशुभविभवोदय राम आनन्दामृतवर्षक राम आश्रितवत्सल जय जय राम रघुपति राघव राज राम पतितपावन सीता राम राम राम जय राज राम राम राम जय, जय सीता इति श्रीराम रामायणं संपूर्णम् हरिः ॐ दत्सत्